हरि ओं श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमदध्यात्मनारामायणे युद्धकाण्डे पञ्चदश स्वर्ग श्रीमहादेव उवाच ततस्तु कैके कै पुत्रो भरतो भक्तिसंयुतः शिरश्चञ्जलिमाधाय ज्येष्ठं मातामे माता में तत्तं राज्यं त्वयमभ ददामि दत्ते च पुनः यथा त्वमददा मम इत्युक्त्वा पादयोर्भक्त्या साष्टाङ्गं प्रणिपत्य च बहुधा प्रार्थयामास कैकेय्या गुरुणासः तथेति प्रतिजग्राह भर्ता राज्यमीश्वरः मायामाश्रितसकलाम् नरचेष्टामुपागतः स्वराज्यानुभवो यस्य सुखज्ञानैकरूपिणः निरस्तातिशयानन्देण परमात्मनः मानुजेण तु राज्येन किं तस्य जगदीशितुः यस्य भूभङ्गमात्रेण त्रिलोकी नश्यति क्षणात् यस्यानुग्रहमात्रेण भवन्त्या खण्डलश्रियः लीलासृष्टमासृष्टे कियत् एतद्रमापतेः तथापि भजताम् नित्यम् कामपूरविधित्वया लीलामानुषदेहेन सर्वम् अप्यनुवर्तते ततशत्रुघ्नवचनान् निपुणः श्मश्रुन् गुन्तकः भाराश्चाभिषेकार्थम् आनीता राघवस्य हि पूर्वं तु भरते स्नाते लक्ष्मणे च महात्मने सुग्रीवे वा नरेन्द्रे च राक्षसेन्द्रे विभीषणे विशोधितः जटस्नाते चित्रमाल्यानुलेपनः मह वसनोपेत तथो तत्र श्रियाज्वलन् प्रतिकर्म च रामस्य लक्ष्मणश्च महामतिः कारयामास भरत सीताया राजयोषितः महर्हवस्त्राभरणे अलञ्चक्रुमध्यमां ततो वानरपत्नीनां सर्वासामेव शोभना अकारयतः कौसल्या प्ररुष्टा पुत्रवत्सला ततश्चन्दनमादाय शत्रुघ्नवचनात् सुधी सुमन्त्र सूर्यसंकाशं योजयित्वा गृतस्थित अरुह सम्राम सत्यधर्मपरायणः सुग्रीवो युवराजश्च हनुमानश्च विभीषणः स्ना दिव्याम्बरधरा दिव्या भरणभूषिता रामं मन्द्वी युरग्रे च तथाश्व गजवाहनः सुग्रीवपत्न्या सीता च ययुर्यानैः पुरं महत् वज्रपाणैर्यथा देवै हरिताश्वरथे स्थितः रययोरथमासाय तथा रामो महात्पुरम् सा रथ्यम् भरतश्चक्रे रत्नदण्डम् महाद्युतिः श्वेतातपत्रम् लक्ष्मणो व्यजनं दधे चामरं च समीपस्थो न्यवीजय न्यवी दरिन्दम शशिप्रकाशं त्वपरं जगराः सुरनायकः दिविजये सिद्धसङ्घै च ऋषिभि दिव्यदर्शनै स्तूयमानस्य रामस्य शुश्रूवे मधुरध्वनिः मानुषं रूपमास्थाय वानरागजवाहनः धीरी शङ्ख निदादृष्ट मुदङ्ग प्रणवानकै प्रययो राघवश्रेष्ठ तां पुरीं समलङ्कृताम् ददृशुत्रे समायान्तम् राघवं पुरवासिनः दुर्वादलशामतनुम् हर्ह किरीटरत्नाभरणाञ्चिदाङ्गम् आरक्तकञ्जायितलोचनादम् दृष्ट्वा ययुर्मोदमतीव पुण्या विचित्रञ्जितसूत्रे पीताम्बरं पीनभुजान्तरालम् अनर्घ्य मुक्ताफलदिव्यहारे विरोचमानं रघुनन्दनं प्रजा सुग्रीव मुख्यै हरिभिः प्रशान्तै निषेव्यमाणं रवितुल्यभासम् कस्तूरिका मा गात्रम् निवेतकल्पुष्पमालम् धृत्वा श्रियो रामपागतं मुदा प्रहश्च वेगोत्कलिना कलितानन अपास्य सर्वं गृहकार्यमाहितम् हर्म्याणि चैवरूहे सलङ्कुता दृष्ट्वा हरिं सर्वद्रूसवाकृतिम् पुष्पैकिरं दृग्भिः पुनर स्वानन्द मूर्तिम् मनसा भिरेभिरे रामस्मितस्निग्धदृशा प्रजा तथा पश्यन् प्रजानातैव परप्रभु शनिर्जगामाथ पितुः स्वलङ्कृतम् गृहम् महेन्द्रालय सन्निभ हरिम् प्रवेष्ट वैष्मितरसंस्थितो मुदा रामो वन्दे चरणो समातु क्रमेण सर्वापि दुर्योषित प्रभो न नाम भक्त्यार्घो ततो भरतमायेनम् राम सत्यपराक्रमः सर्वसम्पत् समायुक्तम् राम मित्राय वनरेन्द्राय सुग्रीवाय प्रदीयताम् सर्वेभ्य सुखवासार्थम् मन्दिराणि प्रकल्पय रामेणैवं समादिष्टो भरतश्च तथा करो करोचह महतेजा सुग्रीवम् राघवानुजः राघवस्याभिषेकार्थम् चतुस्सिन्धुजलं शुभम् आनेतुं प्रेषया श्वाशु दूतान् त्वरितविक्रमान् प्रेशया सुग्रीवो गामवन्तम् अरुत्सुतम् अङ्गलं च सुषेणं च ते गत्वा वायुवेगतः समानयन् आनीतं तीर्थसलिलम् शत्रुघ्नो मन्त्रिभिः सह राघवस्याभिषेकार्थं वसिष्ठाय न्यवेदय प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह त्नमये पीठे सशीतं तन्यवेशयेत् वसिष्ठो वामदेवश्च जाबालिर्गौतमस्तथा वाल्मीकिश्च तथा चक्रु सर्वे रामाभिषेचनं कुशाग्रे तुलसीयुक्त पुण्यगन्धजलैर्मुदा अभ्यसिञ्चन रघुश्रेष्ठं वासवं वसवो यथा कृतृग्भिः ब्रह्मणै श्रेष्ठै कन्याभिः सह मन्त्रिभिः सर्वोषधी रसैष्ठनपसि स्थितै चतुर्भि लोकपालैच च स्तुवद्भिः स गणेशः चत्रं च तस्य जगराह शुभम् सुग्रीव राक्षसेन्द्रोतौ ददतु श्वेतचामरे मालां च काञ्चनीं वायु ददो वासवचोदितः सर्वरत्नसमायुक्तम् मणिकाञ्चन भूषितम् तदोहारम् नरेन्द्राय स्वयं चक्रतुभक्तितः प्र च गुरुदेव गन्धर्वा नन्द्ररोगणः देवधुन्दुभयो नेरु नवदुर्वादल श्यामम् पद्मपत्रायते क्षणम् रविकोटि प्रभायुक्त कीटेन विराजितम् कोटि कन्दर्पलावण्यम् पिताम्बररसामृतम् दिव्याभरणसम्पन्नम् दिव्य चन्दन लेपनम् अयुतादित्य सङ्काशम् द्विभुजं रघुनन्दनम् वाम भागे सामसान सीतान सी सन्निभा सर्वाभस रक्तोत्लरां भोजा वा मेनालिंग संस्थित सर्वातिशयशोभासम उमया सहित रंको रघुनंदनम सर्वदेव गणेर्युक्ता स्तोतुम् समुपचक्रमे श्रीमहादेव उवाच नमास्तु रामाय सशक्तिकाय नीलोत्पल श्यामलकोमलाय कीटे हाराङ्गलभूषणाय सिंहासनस्थाय महाप्रभाय पामादिमध्यान्तविहीन एक सृजस्य वस्त्यस्थी च लोकजातम् स मायातेन लिप्यते त्वम् यत्स्वे सुषे च रतो नवद्य लीलाम् विधत्ते गुणसंवृत त्वम् प्रपन्नभक्तानुविधान हेतो नानावतारे स्वरमानुषाध्यै प्रतीयसेनानिभिरेव नित्यम् स्वशेन लोकम् सकलं विधाय तम् बिभर्षि च ददत् तदय फ उपर यथो भन लोडुषधी प्रवश रूप वसी निका जगत तमी देह भ्रुता चिखीप पचसी भुक्त शेषम्जमजस पवन पंचकूप जगद मन बिहसी चंद्र सूर्य किमगतम य तेज ईशचिदशेषतनूनां वृतामिव धैर्यं शौर्यमायुरखिलं तव सत्वं विरिञ्चि शिवविष्णुविभेदात् कालकर्म शशि सूर्यविभागात् वादिनां पृथगी द्वेषविभाति ब्रह्म निश्चितमनन्यदैकम् पच्चादिरूपेण रूपेण त्वमेक कृतौ पुराणेषु च लोकसिद्ध तथैव सर्वं सदसद्विभाग त्वमेव नान्यद्भक्तो विभाति यद्यत् समुत्पन्नमनन्तसृष्टौ उत्पत्स्यते यच्च भवच्च यच्च न दृश्यते सावरजङ्गमादौ त्वया विनाथ परथ परस्थम् तत् तं न जानन्ति परमा परात्मनस्ते जना समस्तास्तव माययात् तद्भक्तसेवामलमानसानां विभाति तत् तम् परमेकमैशम् ब्रह्मदयस्तेन विदुषरूपम् चिरात्मतस्तम् बहिरर्थभाव ततो विभु त्वाम् इदमेव रूपम् भक्त्या भजन्मुक्तिमुपैत्य दुःख अहम् भवन्नाम गुणम् कृताथो वसामि भवान्या मम ऊषु माणस्य विमुक्तयेऽहम् दिशामि मन्त्रम् तव राम राम इमं स्तवम् नित्यमनन्यभक्त्या शृण्वन्ति ते सर्वसौख्यम् परमं च लब्ध्वा भवत्पदम् यान्तु भवत्प्रसादात् रक्षोधिपे राखिलदेव सौख्यम् वृतं च मे ब्रह्मवरेण देव पुनश्च सर्वं भवतः प्रसादात् प्राप्तं हतो स राक्षसलुष्टशत्रु देवाऊचो हृता यज्ञभाग धरा देव दत्ता मुरारे कलेनादिदैत्येन विष्णो अचोद्यत्वया नो वितानेषु भाग पुराविष्यन्ति उष्मत्प्रसादात् पितरो च हतो दुष्टदैत्यो महात्मन् गयारो नरे दत्तपिण्डादिकान्न बलादत् यत् सा गृहीत्वा समर्थान् इदानीं पुनर्लब्धसत्त्वा भयभवाम यक्षाभूषु सदाविष्टि कर्मण्यने नाभियुक्ता वहामो दशाला दुःखयुक्ता दुरात्मा हतो रावणो राघवेश त्वया ते वयं दुःखदाता विमुक्ता गन्धर्वाहूचु वयं सङ्गीतनिपुणा गायन्तस्य कथामृतम् आनन्दामृतसन्दोह युक्ता पूर्णा सिता पुरा पश्चात् दुरात्मना रावणेनाभिविद्रुता भिविद्रुता गायमाना च तद्दाराधन तत्परः स्थितास्तया परित्राता अतोऽयं दुष्टराक्षसः एवम् महोरगासिद्धा किन्नरा मृतस्तथा पतवो मनयुगावो गुह्यकाश्च पतत्रिणः सप्रजा पतयश्चेते तथा चाप्तरसांगणः सर्वे रामम् समासाद्य दृष्ट्वा नेत्रमहोत्सवम् श्रुत्वा पृथक् पृथक् सर्वे राघवेणाभिवन्दितः ययोस्वं तं पदं सर्वे ब्रह्मरुद्रादयस्तथा प्रशंसन्तो मुदा रामम् गायन्तस्तस्य चेतितम् ध्यायन्तस्थःभिषेकार्द्रम् सीतालक्ष्मणसंयुतं सिंहासनस्थं राजेन्द्रम् ययुः सर्वे हृदि स्थितम् खे वाद्येषु ध्वनत्सु प्रमुदित हृदये देववृन्दैस्तुवद्भिः दे वश्यद्भिः पुष्पवृष्टिं दिवि मुनिकरी रीड्यमान दि समन्तात् रामै श्याम प्रसन्न स्मितरुचिरमुखे सूर्यकोटिप्रकाश सीता सौमित्रिवातान्मजमनिहरिभिः सेव्यमानो विभे इति श्रीमदध्यात्मरामायणे उमामैसूरसंवादे युद्धकाण्डे पञ्चदश सर्गः श्रीसीतारामचन्द्रार्पणमस्तु